हमामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्मतरश्रुङ्गोतिभिस्येदसादनम् श्रीमहागणाधिपतये नमः श्रीगणेशाष्टकम् यम् ब्रह्म वेदान्तविदो वदन्ति परम् प्रधानम् पुरुषम् तधान्ये विश्वोगतेः कारणमीश्वरम् वा तस्मै नमो विघ्नविनायकाय एकदन्तम् महाकायम् तप्तकाञ्चन म्बोधरं विशालाक्षं वन्देहं गणनायकम् मौञ्जीकृष्णाजिनधरम् नागयज्ञोपविदिनम् बालेन्दुशकलं मौळौ वन्देहं गणनायकम् चित्ररत्नविचित्राङ्गम् चित्रमालाविभूषितम् कामरूपधरम् देवम् वन्देहम् गणनायकम् मूषकोत्तममारुह्य देवासुरमहाहवे योद्धुकामम् महावीर्यम् वन्देहम् गणनायकम् वक्त्रम् सुरश्रेष्ठम् कर्णचामरभूषितम् पाशाङ्कुशधरम् देवम् वन्देऽहम् गणनायकम् यक्षगिन्नरगन्धर्वसिद्धविद्याधरैः सदा स्वीयबालम् महाबाहुम् वन्देऽहम् गणनायकम् अम्बिकाहृदयानन्दम् मातृदिग्परिवेष्टितम् भक्तप्रियं मदोन्मत्तं वन्देहं गणनायकम् सर्वविघ्नकरं देवम् सर्वविघ्नविवर्जितम् सर्वसिद्धिप्रदातारं वन्देहं गणनायकम् एकमौजीचित्ररत्न मूषको गजवक्त्रकः यक्षाम्बिका सर्वविघ्न गणाष्टकमिदम् क्रमात् गणाष्टकमिदम् पुण्यम् यः पठेत् सततम् नरः सिद्ध्यन्ति सर्वकार्याणि विद्यावान् धनवान् भवेत् पोषकवाहन मोदकहस्ता चाबरकन्न विलम्बितसूत्र वामनरूपमहेश्वरपुत्र विघ्नविनायकपादनमस्ते गजाननम् भूतगणादिसेवितम् कपित्थजम्बूफलसारभक्षितम् उपासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम् इति श्रीगणेशपुराणे उपासनाकाण्डे श्रीगणेशाष्टकं सम्पूर्णम्